ॐ प्रद्युम्नजनन्यै नमः ॐ पुष्टायै नमः ॐ पितामहपरिग्रहायै नमः ॐ पुण्डरीकपुरावासायै नमः ॐ पुण्डरीकसमाननायै नमः ॐ पृथुजङ्घायै नमः ॐ पृथुभुजायै नमः ॐ पृथुपादायै नमः ॐ पृथुदर्यै नमः ॐ प्रवादशोभायै नमः ॐ पिङ्गाक्ष्यै नमः ॐ पीतवासाः नमः ॐ प्रचापलायै नमः ॐ प्रषवायै नमः ॐ पुष्टिदायै नमः ॐ पुण्यायै नमः ॐ प्रतिष्ठायै नमः ॐ प्रणवायै नमः ॐ पत्यै नमः ॐ पञ्चवर्णाय नमः ॐ पञ्चवाण्यै नमः ॐ पञ्चिकाय नमः ॐ पञ्जरास्थितायै नमः ॐ परमायायै नमः ॐ परज्योतिस्नः ॐ परप्रीत्यै नमः ॐ परागत्यै नमः ॐ पराकाष्ठायै नमः ॐ परेशन्यै नमः ॐ पावन्यै नमः ॐ पावकद्युत्यै नमः ॐ पुण्यभद्राय नमः ॐ परिच्छेद्याय नमः ॐ पुष्पहासायै नमः ॐ पृथूदराय नमः ॐ पीताङ्ग्यै नमः ॐ पीतवसनायै नमः ॐ पीतशयायै नमः ॐ पिशाचिन्यै नमः ॐ पीतक्रियाय नमः ॐ पिशाचज्ञै नमः ॐ पाटलाक्ष्यै नमः ॐ पटुक्रियाय नमः ॐ पञ्चभक्षप्रियाचाराय नमः ॐ पूतनाप्राणघातिन्यै नमः ॐ पुन्नागवनमध्यस्थायै नमः ॐ पुण्यतीर्थनिषेवितायै नमः ॐ पञ्चाङ्ग्यै नमः ॐ पराशक्त्यै नमः ॐ परमाह्लादकारिण्यै नमः ॐ पुष्पकाण्डस्थितायै नमः ॐ पूषायै नमः ॐ पोषिताकिलविष्टपाय नमः ॐ पानप्रियाय नमः ॐ पञ्चशिखाय नमः ॐ पन्नगोपरिषायिन्यै नमः ॐ पञ्चमात्रात्मिकायै नमः ॐ पृथिव्यै नमः ॐ पथिकायै नमः ॐ पृदुदोहिन्यै नमः ॐ पुराणन्यायमीमांसायै नमः ॐ पाटल्यै नमः ॐ पुष्पगन्धिन्यै नमः ॐ पुण्यप्रजाय नमः ॐ पारदात्र्यै नमः ॐ परमार्गैकगोचराय नमः ॐ प्रवालशोभायै नमः ॐ पूर्णाशाय नमः ॐ प्रणवायै नमः ॐ पल्लवोदर्यै नमः ॐ फलिन्यै नमः ॐ फलदाय नमः ॐ फल्ग्वय नमः ॐ फुत्कार्यै नमः ॐ फलकाकृत्यै नमः ॐ फणीन्द्रभोगशयनायै नमः ॐ फणिमण्डलमण्डितायै नमः ॐ बालबालाय नमः ॐ बहुमतायै नमः ॐ बालातपनीभांशुकाय नमः ॐ बलभद्रप्रियायै नमः ॐ बडवायै नमः ॐ बुद्धिसंस्तुताय नमः ॐ बन्दीदेव्यै नमः ॐ बिलवत्यै नमः ॐ बडिषघिन्यै नमः ॐ बलिप्रियायै नमः ॐ बान्धव्यै नमः ॐ बोधितायै नमः ॐ बुद्धिबन्धुकककुसुमप्रियायै नमः ॐ बालभानुप्रभाकराय नमः ॐ ब्राह्म्यै नमः ॐ ब्राह्मणदेवतायै नमः ॐ बृहस्पतिस्तुतायै नमः ॐ वृन्दाय नमः ॐ वृन्दावनविहारिण्यै नमः ॐ बालाकिन्यै नमः ॐ बिलाहाराय नमः ॐ बिलवशायै नमः ॐ बहुदकायै नमः